हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे चतुःषष्टितम सर्गः राज्ञा स्वकृतेन मुनिकुमारवधेन तदीय पित्रोर्विलापस्य सत्प्रदत्तशापस्य च प्रसङ्गम् श्रावयित्वा कौसल्याया पार्श्वे रोदम् रोदम् निशीथे स्वप्राणानाम् परित्याग वधम् अप्रतिरूपन्तु महर्षि तस्य राघव विलपन्नेव धर्मात्मा कौसल्यामिदम् अब्रवीत् तदध्यानान् महत्पापम् कृत्वा सङ्कुलितेन्द्रियः एक सु अचिन्तयम् बुद्ध्व कथं धू सुकृतम् भवेत् तद तम् परमवारिण आश्रमम् तम् प्राप्य यथाख्यात प्रथङ्गत तत्राहं दुर्बलो बन्धौ वृद्धो अपरिणायकौ अपश्यन् तस्य पितरौ लोनपक्षो इवद्वियो द्विजौ तन्निमित्ताभिरासीनौ कथाभि अपरिश्रम सामाशं मत्कृते हीनौ उपासीनावनाथ वेत् शोकोपः सचित्तस्य भयसन्त्र सचेतनः सच्चाश्रयमवदम् गत्वा भूय शोकमहङ्गतः पदशब्दं तुमे श्रुत्वा मुनिर्वाक्यम् अभाषत् किं चिरायसिं मे पुत्रे पानीयम् चि प्रमाणय यज्ञम् सलीले क्रीडितं उत्कण्ठिता ते मातेयम् प्राविश क्षिप्रमाश्रमम् यद्यपि कृतं पुत्र मात्रा ते यदि वा मया न तन्मनसि कर्तव्यम् प्रया स तपस्विना सङ्गते तु गतीनां चक्षुष्टं हि न चक्षुषाम् समासक्ता स्वी प्राण कथं मुनिं भुव्यक्त वाच तमहं सज्जमानय हीन व्यञ्जनय प्रेक्ष्य भीतचित्त इवाब्रुवन् मनस कर्मचेक्षाभि अभिसंस्तभ्य वाग् बलम् आचक्षे तं तस्मै पुत्रव्यस नजं भयं क्षत्रियोऽहं नाहं पुत्रो महात्मनः सज्जनाव मतम् दुःखम् इदम् प्राप्तम् सकर्मजम् भगवञ्चापहस्तोऽहम् सर्योतीरमागतः जिघन्तु श्वापदम् किञ्चित् निपामेवागतम् गजम् ततश्रुतो शब्दो जले कुम्भस्य पूर्यतः दीपोऽयमिति मत्वाहम् बाणे गत्वा तस्यास्तरम् अपैश्यम् इशुना हृदि विनिर्भिन्नम् गतप्राणम् शयनम् भुवि तापसं ततः तस्यैव वचनात् उपेत्य परितप्यतः स मया स सा मर्मतः सदा स चो धृतेन बाणेन सहसा स्वर्गमास्थितः अंधो विलप्य अवतुत्र सीयो मै शैष्यम एवं गैर तत मुन तुता तक, वच क्रूरम मैयाल नाशक तीव्रयासम स कर्ट भगवान्षि स बाष्पूर्ण वजनो निश्वसन् चोकमूर्छितः मामुवाच महतेजा कृताञ्जलिमुपास्थितम् यद्येत शुभम् कर्म न स्नामे स्वयं फलेन मूर्धा राजन् सद्यश्च तत्रधा क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ज्ञानपूर्वं चावयेदपि वज्रिणम् सप्तध तु भवेन्मूर्ध मनो तपसि तिष्ठति ज्ञानं विसृजतश्चत्रम् तादृशे ब्रह्मवादिनी अज्ञानाधिकृतम् यस्मात् इदं ते तेन जीवते अपि हि कुशलम् न स्यात् कुतो भवान् नयनो नृपतम् देशम् इति मां चाभ्यभाषत् अद्य तं दृष्टिमिच्छाव पुत्रम् पश्चिम दर्शनम् रुधिरेणावशिक्ताङ्गम् प्रकीर्णाजिनवसम् शयानम् भुवि निसन्यम् धर्मराजवशं गतम् अथ अहम् एकस्थेशम् नीत्वा तौ भृभृश अहम् पुत्रम् तम मुनि सह भार्युत्र पृश्वा साम तपस्पेत शरीर से पिता चयनम उवाचे नादयसे मध्य नामषसे किंज शेषे शे तो भूमोत वत्स किं कौ्यसी नन्वेपुत्र मातर पश्य धाकी किंचनालिंग सुकुमचो व्य वात्रेह श्रोष् हृदयंगम अधीयान से मधुर शास्त्र बाल्यशेषते को मं संध्या स्नाता हूत हुता, हुता शे लाभयती उपासन पुत्र शोक भयाद कल फल हूत व्यो नायकं कर्मण्यम अग्रहनायकं च बंधा च चातर ते कथं कठम भरीशा कृपणां पुत्रगर्धिनीम् तिष्ठ मामागमपुत्र यमस्य सदनं प्रति शो मया सह गन्तासि जन्या च समेधितः उभोऽपि च शोकार्तु अनाथो कृपणो वने क्षिप्रमेव गमिष्याव त्वया हीनोऽयमक्षयं ततो एव स्वतं तम् प्रवक्ष्यामि भारतीम् क्षमतां धर्मराजो मे विब्रूयात् पितरा वयम् धर्मात्मा लोकपालो महायशः ईदृशस्य ममाक्षय्याम् एकाम् अभयदक्षिणाम् अपापोऽसि यथा पुत्र निहत पापकर्मण तेन सत्येन गच्छासु ये लोकाशस्त्रयोधिनाम् यां हि चोरः गतिं यान्ति सङ्ग्रामेश्वभर्तिनः हतास्वभिमुखपुत्र गतिं तालं परमामृज यां गतिं सगरशैवो दिलीपो जनमे जय है नहुषो धुन्धुमरश्च गच्छ पुत्र या गतिम सर्वूतापस भूमिदिता एक व्रत से गुरु सेवा भूता देहन्यासक गतिम गुत्र नि तस्ती कुशिला चतु यास्यति येन त्वं निहतो मम बान्धवः एवं च कृपणं तत्र पर्यदेव यथासकृत् ततोऽस्मै कर्तुमोदकम् प्रवृत्तः सह भार्यया स तु दिव्येन रूपेण मुनिपुत्र स्वकर्मभिः स्वर्गम् अध्यारोह क्षिप्रम् सह धर्मभिः आबभाषे चतुवृद्धौ शक्रेण स तापसः आश्वस्य च मूर्तम् तु पितरम् वाक्यम् अब्रवीत् स्थानमस्मि महत् प्राप्तौ भवतु परिचारण भवन्तोऽपि च क्षिप्रम् मम मूलम् उपैषथ एवम् उक्त्वा तु दिव्येन विमानेन पुष्पत आरोह दिवम् मुनिपुत्रो जितेन्द्रियः स कृत्वा थोदकम् तापसं सह मामुवाच महतेज कृताञ्जलिम्पसितम् अद्यैव जहि मां मरणो नास्ति मे व्यथ यश्चरेणैकपुत्रम् मां समकाक्षीरपुत्रकम् त्वयापि च यदत् ज्ञानान् निहतो मे स बालकः तेन त्वामपि शप्येऽहम् सुदुःखम् अतिदारुणम् पुत्र विस निजम् एवं तं पुत्रशोकेन राजन् कालं करिष्यति अन्यानातु हतो यस्मात् क्षत्रिण त्वया मुनिः तस्मात् त्वाम् ब्रह्मत्या नराधिपे सामप्येतादृशो भावे क्षिप्रमेव गमिष्यति जीवितान्तकरो घोरो तातारम्यव दक्षिणाम् एवं शापं मयिन्यस्य विलप्य करुणं बहु देहं तन् मिसुरं स्वर्गमभ्य तदेत चिन्तयनेन मृतं पापं मया स्वयम् तदा बाल्यात् कृतं देवि शब्दवेद्य अनुकर्षणाय तस्यायम् कर्मणो देवी विपाक सुमुपस्थितः अपथ्यै सह सम्भोक्ते व्याधिरन्नते यथा तस्माद् माम् आगतं भद्रे तस्योदारस्य तद्वचः इत्युक्त्वा स रुदन्त्रस्तु भारेतु भूमिप यदम पुत्रशोकन संयिषा जीवित चतुर्भ्याम पश्या कौसल्यम तुर्षय स्पष यम् मनुप्राता द्रक्ष्य नी मान मानव यदि मतृशे ध्राम सकृन वेदवराज्यम व जीवेयमिति मे मतिः न तन्मे सदृशं देवि यन्मया राघवे कृतं सदृशं तत्तु तस्यैव यधने न कृतं मयि दुर्वृत्तम् अपि कैकपुत्रम् कश्च प्रव्राजमानो वा नासु येत् चक्षुषा त्वां न स्मृतिर्माविलुप्यते दूता वैव स्वतस्यैते कौसल्ये त्वरयन्ति अतस्तु किं दुःखतरम् यदहं जीवितक्षये नहि पश्यामि धर्मज्ञम् रामं सत्यपराक्रमम् तस्या दर्शनयशोक सुतस्या प्रतिकर्मणः उच्छोषयति वै प्राणां वारिस्तोकं विवा तपः नते मनुष्या देवास्ते ये चारु शुभकुण्डलम् मुखम् द्रक्षन्ति रामस्य वर्षे पञ्चदशे पुनह। पद्मपत्रे क्षणम् शुभ्रु सुदंष्ट्रम् चारु नासिकम् धन्या द्रक्षन्ति रामस्य ताराधीपसमम् मुखम् सदृशम् चारदस्येन्द्रु फुल्लस्य कमलस्य च सुगन्धे मम रामस्य धन्या द्रक्षन्ति ये मुखम् निवृत्त उनुवासन्तम् अयोध्याम् पुनरागतम् द्रक्षन्ति सुखिनो रामम् शुक्रम् मार्गगतम् यथा कौसल्ये चित्तमोहेन हृदयम् सीदतेतराम् वेदयेन च संयुक्ताम् शब्दस्पर्श चित्तनाशादिपद्यन्ते सर्वाण्येवेन्द्रियाणि हि क्षीणस्नेहस्तदीपस्य संरक्ता रश्मयो यथा अयम् आत्म भवशोको शोको मामनाथम् अचेतनम् वेगेन यथा कोलम् नदी रयः महबहु राघव महाबाहु ह हा पितृप्रिय मेनाथ अहं ममासि हा कौसल्येन पश्यामि हा सुमित्रे तपस्विनी आन्शंसे ममामित्रे कैकेयी कै कुलपांसी इति भ्रातुश्च रामस्य सुमित्राया च सन्निधौ राजा दशरथशोचन् जीवितान्तम् अपागमयत् तथा सुदीनय कथयन्न राधिप प्रियस्य पुत्रस्य विवास नातुर गतेर्धरात्रे भृशदुःख पीडितः सदा जहो प्राणमुदार दर्शन इत्याशि श्रीमद् रामायणे वाल्मीकि अधिकार्य अयोध्याकाण्डे चतुःषष्टि तम सर्गे श्री